नवग्रहऋषिः सुप्रभातम् ब्रह्मा मुरारिः त्रिपुरान्तकारी भानुः शशीभूमिसुतोबुधश्च गुरुश्च शुक्रश्शनिराहुकेतवः कुर्वन्तु सर्वे मम सुप्रभातम् भृगुर्वसिष्ठः क्रतुरङ्गिराश्च रभ्यो मरीचिश्चवनश्च दक्षः कुर्वन्तु सर्वे मम सुप्रभातं सनक्कुमारः सनकः सनन्दनः सनातनोऽप्यासुरिपिङ्गलौ च सप्तस्वराः कुर्वन्तु सर्वे मम सुप्रभातम् सप्तार्णवाः सप्तकुलाचलाश्च सप्तर्षयो द्वीपवनानि सप्त धूरादि कृत्वा भुवनानि सप्त कुर्वन्तु सर्वे मम सुप्रभातम् पृथ्वी स सरसा तथापः स्पर्शश्च वायुः ज्वलितम् च तेजः नभः महता सहैव कुर्वन्तु सर्वे मम सुप्रभातम् कश्यपुत्रिर्भरद्वाजो विश्वामित्रोऽथ गौतमः जमदग्निः वसिष्ठश्च सप्तैते ऋषयस्मृताः